गर्गसंहितखण्डम् वन् गोलोकखण्डम् अध्यायम् एट् शाधिकाजन्मवर्णनम् श्रुत्वा तदा शौनकभक्तियुक्तश्रीमैथिलो ज्ञानभृताम्बरिष्ठः नत्वा पुनः प्राह प्राहमुनिम् महाद्भुतम् देवर्षिवर्यं हरिभक्तनिष्ठः बहुलाश्व उवाच त्वया कुलं कौ विशदीकृतं मे स्वानन्ददोर्यद्य च सामलेन जनोपि जनोऽपि सत्स्याद्बहुना किमुस् श्वीत श्रीराधया पूर्णतमस्तु साक्षाद्गत्वा व्रजे किं चरितं चकार तद्ब्रूहि मे देवऋषे ऋषिश त्रितापदुःखपरिपाहि मां त्वम् श्रीनरद उवाच धन्यं कुलं यन्निमिना नृपेण श्रीकृष्णभक्तेन परात्परेण पूर्णीकृतं यत्र भवान् प्रजादो शुक्तौ मुक्दा भवनं नचित्रं। चित्रम् अधप्रभोस्तस्य पवित्रलीलां सुमङ्गलां सं शृणुताम् परस्य अभूत्सदां यो भुविरक्षणार्थं न केवलं कंसवधाय कृष्णः अधैव राधां वृषभानुपत्न्यामावेश्यरूपं महसत्पराख्यं कलिन्दजाकुलनिकुञ्जदेशे सुमन्दिरे सावदतारराजन् कनावृदेव्योम्निदिनस्य मध्ये भाद्रे सिधे नाग तिधौ जोमे अवा किरन्देवगणास्पुरभिस्तन्मन्दिरे नन्दनजै प्रसूनैः राधावतारेण तदा बभूवुर्नद्योमलाभाश्च दिशप्रसेदुः वुश्चवादाम् अरविन्दराहैः सुशीलदा सुन्दरमन्दयानाः सुदां शरश्चन्द्रशदाभिरामाम् दृष्ट्वा ध शुभां विधायाशु द्विजेभ्यो द्वि दु... लक्षमानन्दकरं गवां च प्रङ्गे कचिद्रत्नमयूखपूर्णे सुवर्णयुक्ते कृतचन्दनाङ्गे आन्दोलिदासाववृधे सखी जनैर्दिने दिने, दिने। चन्द्रकलेव भाभिः देववरैः सुदुर्लभं यज्ञैरवाप्तम् जनजन्मकोटिभिः सविग्रहां तान् वृषभानुमन्दिरे ललन्दिलोका ललनाप्रलालनैः श्रीरासरङ्गस्य विकासचन्द्रिका दीपावलीभिर्वृषभानुमन्दिरे गोलोकचूडामणिकण्ठभूषणां ध्यात्वा परां तां भुवि पर्यडाम्यहम् श्रीबहुलाश्व उवाच वृषभानो राहो भाग्यं यस्य राधा सुदा भवद कलावत्या सुचन्द्रेण किं श्रीनारद उवाच नृगपुत्रो महाभाग सुचन्द्रो नृपदीश्वरः चक्रवर्तीहरिरंशो बभूवातीव सुन्दरः पितॄणां मनसि कन्यास्तिस्रो भूवन्मनोहराः कलावधिरत्नमाला मेनका नाम नामदः कलावदीं सुचन्द्राय हरेरंशाय धीमदे वैदेहाय रत्नमालां मेनकां च हिमाद्रये पारिबर्षेण विधिना स्वेचाभिपिदरो ददुः सीताभूद्रत्नमालायां मेनकायां च पार्वती द्वयोश्चरित्रं विदितं पुराणेषु महामदे सुचन्द्रोदकलावत्यागोमदीतीरजेवने दिव्यैर्द्वादशभिर्वर्षैस्त तदापब्रह्मणस्पदः अधविधिस्तमागत्य वरं ब्रूहित्युवाचः श्रुत्वा वल्मीकदेशा च निर्ययौ दिव्यरूपधृक वाच मे भूया दिव्यं मोक्षं तच्छ्रुत्वा दुःखिता साध्वी विधिम् प्राह कलावधि पदिरेव हि नारीणां दैवतं परमं स्मृतं यदि मोक्षमः सौयादि तदामेका गतिर्भवेद येन विना न जीवामि यदि मोक्षं प्रदास्यसि तुभ्यं शापम् प्रदास्यामि पदि विक्षेपविह्वला श्रीब्रह्मोवाच त्वच्चापाभयभीदोऽहम् मे वरोऽपि मृषा न हि तस्मात् त्वम् प्राणपदिना सार्धम् गच्छत्रिविष्टपम् भुक्त्वा सुखानि कालेन युवाम् भूमौ भविष्यधः गङ्गायमुनयोर्मध्ये द्वापरान्ते च भारते युवयोराधिका साक्षात् परिपूर्णतमः प्रिया यदा पुत्री तदा मोक्षं गमिष्यधः श्रीनारद उवाच युद्धं ब्रह्मवरेणा ध दिव्येन मोकरूपिणा कलावदी सुचन्द्रौ च भूमौ तौ द्वौ बभूवधूः कलावदी कान्यकुब्जे भलन्तननृपस्य च जादिस्मराह्यभुदिव्या यज्ञकुण्डसमुद्भवा सुचन्द्रो वृषभानुवाक्यसुरभानुगृहे भवेद जादिस्मरो गोपवरकामदेव इवापरह सम्बन्धं योजयामास नन्दराजो महामतिः तयोश्च जादिस्मरयोरिच्छदोरिचया द्वयोः वृषभानो कलावत्या आख्यानं शृणुते नरः सर्वपापविनिर्मुक्तकृष्णसायुज्यमाप्नुयात् इति श्रीगर्गसंहितायाम् गोलोकखण्डे नारदबहुलाशुवसंवादे श्रीराधिकाजन्मवर्णनम् नाम अष्टमोऽध्यायः ओम् गर्गसंहिताखण्डम् वन् गोलोकखण्डम् अध्यायं नयन वासुदेवदेवकी विवाहवर्णनम् तत्रैकदा श्रीमधुरापुरेवरे पुरोचितः सर्वयदुत्तमहै कृतः सूर्यचया गर्ग समाययौ सुन्दरराजमन्दिरम् हीराकचिद्धेमलसत्कपाटकम् द्विप्रेन्द्रकर्णासदभृन्दनादिदम् इभस्रवन् निर्जरगण्डधारया समावृतं मण्डपखण्डमण्डितं महोद्भटैर्धीरजनैः स कञ्चूकाैर्धनुर्धरैश्चर्म कृपाणपाणिभिः रदद्विपाश्वध्वजिनीबलादिभिः सुरक्षितमण्डलमण्डलीभिः ददर्शगर्भो नृपदेवमाहुकम् श्वाफल्किना देवक कंसेवितम् श्रीशक्रसिंहासन उन्नते परे स्थितं वृतं छत्रविदानचामरैः दृष्ट्वा मुनिं तं सहसासनाश्रया दुद्धाय राजा प्रणनाम यादवैः संस्थाप्य सम्पूज्य सुभद्रपीठके तुत्वा परिक्रम्य नदस्पिदो भवद दत्त्वा शिष्यं गर्गमुनिर्नृपाय वै पप्रच्छ सर्वं कुशलं नृपादिषु श्रीदेवकम् प्राह महामना ऋषिर्महौजसं नीदिविधिं यदूत्तमं श्रीगर्ग उवाच शौरीं विना भुवि नृपेषु वरस्तु नास्ति चिन्त्यो मया बहुदिह्नै किल यत्र तत्र तस्मान्नृदेववसुदेववराय देहि श्रीदेवहीं निजसुगां विधिनोद्वहस्व श्रीनारद उवाच कृत्वा तदैव पुरिनिश्चय नागवल्लीम् श्रीदेवकं सकलधर्मभृदां वरिष्ठः गर्गे चयादु वसुदेववराय पुत्रीं कृत्वाधमङ्गलमलं प्रददौ विवाहे कृत्वद्वह शौरिरदीवसुन्दरं रथं प्रयाणे समलं कृतं हयैः सार्धं तया देवकराजकन्याया समालुहत् काञ्चनरत्नशोभया स्वसुप्रियं कर्तुमदीवकंसो जग्राहरश्मिं चलदां हयानाम् उवाहवाहांश्चतु रङ्गिणीभिर्वृतकृपा स्नेहपरोध चौरौ दासीसहस्रम् त्वयिदम् गजानाम् सत्पारिबर्हम् नियुदम् हयानाम् लक्षं रथानाम् च गवाम् द्विलक्षम् प्रादाद्दुहित्रे नृपदेव को वै भेरीमृदङ्गोद्धरगोमुखानाम् दुन्धुर्यवीणानकवेणुकानां महत्स्वनो भूच्चलदां यदूनां प्रयाणकाले पथिमङ्गलम् च आकाशवागाहतदैव कंसम् त्वामष्टमो हि प्रसवो च हन्ता न जानासि च याम्रधस्ताम् रश्मीन् गृहीत्वा वहसे बुधस्त्वम् कुसङ्गनिष्टोऽधिकलोहिकंसो हन्तुं स्वसारम्धिषणाम् चकार कजे गृहीत्वा शितखड्गपाणिर्गदत्रपो निर्दय उग्रकर्मा वादित्रकारारहिता बभूवुरग्रे स्थिदास्युश्चकिताहि पश्चाद सर्वेषु वाश्वेदमुखेषु सत्सु शौरिस्तमाःशु सदाम् वरिष्ठः वसुदेव उवाच भोजेन्द्र भोजकुलकीर्तिकरस्त्वमेव भौमादिमागध भगासुरवत्सबाणैः श्लाघ्या गुणास्तव युधिप्रदियोद्धुकामैः सत्त्वं कद्धं तु भगिनीमसि नात्र हन्याः ज्ञात्वा स्त्रियं किल बगीं युद्धं कृदं न भवदा नृपनीतिवृत्त्या साधु त्वया विभगिनीव कृता प्रशान्त्यै साक्षादियं तु भगिनी किमु ते विचाराद उद्वाहपर्वनिगता जतवानुजा च बालासुदेवकृपणा शुभदा सदैषा योग्योऽसि नात्रमधुराधिपहन्तुमेन त्वम् दीनदुःखहरणे कृतचित्तवृत्तिः श्रीनारद उवाच नामान्यतेद्धम् प्रतिबोधितोऽपि कुसङ्गनिष्ठोऽधिकलो हि कंसः पुनराहकंसम् श्रीवासुदेव श्रीवसुदेव उवाच नास्यास्तुते ते देवभयं कदाचिद्यद्देववाण्या कथितं च तच्छृणो पुत्रान् ददामिधि यदो भयं स्यान्मा देव्यथा प्रसवप्रजाताद श्रीनारद उवाच श्रुत्वा स निश्चित्य वचोधशौरेः कंसप्रशंस्याशु गृहं गदोऽभूद शौरिस्तदा देवकराजपुत्र्या भयावृतः सन् गृहमा जगाम इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे वसुदेवविवाहवर्णनं नाम नवमोऽध्यायः गर्गसंहिता खण्डम् वन् गोलोकखण्डम् बलभद्र जन्म बलभद्रजन्मवर्णनम् श्रीनारद उवाच भीदपलायदे नायं योद्धारकंसनोदिदाः अयुधं शस्त्रसंयुक्ता रुरुधुः शौरिमन्दिरम् शौरिकालेन देवक्यामष्टौ पुत्रा न जीजनद चाद, चाधकन्यामेकां मायां सनातनीं कीर्तिमन्दं सुदं ह्यादौ जागमानकदुन्दुभिः नीत्वा कंसं समभ्येत्य ददौ तस्मै परार्थविद सत्यवाक्यस्थितं शौरिं कंसो घृणीह्यभूद दुःखं साधुर्न सहधे सत्ये कस्य क्षमा न हि कंस उवाच यषबालो यादुगृहमे दस्मान्नहि मे भयाद युवयोरष्टमं गर्भं हनिष्यामि न संशयः नारद उवाच इत्युक्तो वसुदेवस्तु सपुत्रो पुत्रो गृहमागतः सत्यम् नामन्यद मनाग् वाक्यम् तस्य दुरात्मनः तदाम्बरादागदम् माम् नत्वा पूज्योऽग्रसेनजः पप्रच्छदेवाभिप्रायम् प्रावोचं तं निबोधमे नन्दाद्या वसव सर्वे वृषभान्वादय सुराः गोप्यो वेदरुचाद्याश्च सन्धि भूमौ नृपेश्वर वसुदेवादयो देवा, देवा मधुरायां च वृष्णयः देवक्याद्या स्त्रियसर्वा देवता सन्धिनिश्चयः सप्तवारप्रसङ्ख्यानादष्टमा सर्व एव हि ते हन्तुःसङ्ख्ययायं वा देवानां वामदो श्रीनारद उवाच इत्युक्त्युक्त्वा तं मयि गदे कृतदैत्यवधोद्य मे कंसकोपावृतसद्यो यदून् हन्तुम् मनो दधे वसुदेवं देवकीं च बद्ध्वादनिगडैर्दृढैः ममार्दतं शिलापृष्ठे देवकी गर्भजं शिषुम् जातिस्मरो विष्णु भयाज्जातं जातं जानः इति दुष्टविभावाच्च भूमौ भूदम् ह्यसंशयम् उग्रसेनस्तदा क्रुद्धो यादवेन्द्रो नृपेश्वरः वारयामास कंसाख्यम् वसुदेवसहायकृत कंसस्य दुरभिप्रायम् दृष्ट्वा तस्तुर्महाभटः उग्रसेनायुगा रक्षाम् चकृष्टे खड्गपाणयः उग्रसेनानुगान् दृष्ट्वा कंसवीराः समुद्धिताः तैः सार्धमभवद्युद्धम् सभा मण्डपमभ्यदः द्वारदेशेऽपि वीराणाम् युद्धम् जादं परस्परम् खड्गप्रहारैरयुदं कंसस्य गदया स्पृष्ट्वा के जिच्छिन्नललाडकाः भिन्नपादा भिन्नमुखाश्चिन्ना शाश्चिन्नबाहवः अधोमुखा ऊर्ध्वमुखाः स शस्त्रा पतिदाः क्षणाद वमन्दो रुधिरं वीरामूर्च्छिता निधनं गदाः सभा मण्डपमारकृदम् दृश्यते क्षत्रजस्रवाद युद्धं मदोत्कटकं सन्निपात्योद्भटान् रिपून् क्रोधाढ्यो कलः नृपासनासङ्गृहीत्वा बद्ध्वापाशैश्च तं कलः तन्मित्रैश्च नृपैः सार्धं कारागारे रुरोधः मधूनां शूरसेनानां देशानां सर्वसम्पदां सिंहासने चोपविश्य स्वयं राज्यं चकारः पीडितायादवा सर्वे सम्बन्धस्य मिश्रैस्त्वरं चतुर्दिशान्तरं देशान् विविशु कालवेदिनः देवक्याः सप्तमे गर्भे हर्षशोकविवर्धने व्रजम् प्रणीते लोहिण्यामनन्ते योगमायया अहो गर्भक्व विगत इत्यूचिर्माधुरा जनाः अधव्रजे पञ्चदिनेषु भाद्रे स्वातौ चषष्ट्याम् च सिदे बुधे उच्चार्गृहै पञ्चभिरावृते च लग्ने तुलाख्ये दिनमध्यदेशे सुरेशु वर्षत्सु सुपुष्पवर्षम् घनेषु मुञ्चत्सु च वारिबिन्दून् बभूव देवो वसुदेवपत्न्याम् विभासयन्नन्दगृहम् स्वभास नन्दोऽपि कुर्वन् शिशुजादकर्म ददौ द्विजेभ्यो नियुतं गवां च गोपान् समाहूय सुगायकानां पायनो देवला देवराद देवलदेवरादवसिष्ठवाचस्पदिभिर्मया च आगत्य तत्रैव समास्थितो भूत्वाद्यादिभिर्नन्दकृधयि प्रसन्नः नन्दराज उवाच सुन्दरो बालकोऽयम् न दृश्यो यत् समक्वजेद कथम् पञ्चदिनाज्जादस्तन्मे ब्रूहि महामुने श्रीव्यास उवाच अहो भाग्यं तु दे नन्दशिशुष्यशनातनः देवक्यां वसुदेवस्य जातोऽयं मधुरापुरे कृष्णेच्छया तदुदरात् प्रणीतो शुभाम् शुभां नन्दराज दृश्यो दुर्लभो योगिनामपि तद्दर्शनार्थं प्राप्तमहं भेदव्यासो महामुनिः तस्मात् त्वम् दर्शयास्माकम् शिशुरूपम् परात्परम् श्रीनारद उवाच अध नन्दः शिशुम् च शम् दृष्ट्वा प्रेखस्थितम् प्राहनत्वा सत्यवती सुतः श्रीव्यास उवाच देवाजिदेवभगवन्कामपालनमोऽस्तु ते नमोऽनन्दाय शेषाय साक्षाद्रामाय ते नमः दरादराय पूर्णाय स्वधाम्ने सीरपाणये सहस्रशिरसे नित्यम् नमः सङ्कर्षणाय रेवतीरमणत्वं वै बलदेवोच्युदाग्रजः हलायुधप्रलम्बघ्नपहिमां पुरुषोत्तम बलाय बलभद्राय कालाङ्गाय नमो नमः नीलाम्बराय गौराय रौहिणे यायते ते नमः धेनुकाजिर्मुष्टिकाजि कुम्भाण्डारित्वमेव हि रुक्म्यरिक्कूपकर्णारिक्कूडारिर्बल्ल्वलान्तकः कालिन्दीभेदनोऽसि त्वम् अस्ति ना पुरकर्षक द्वि विदारिर्यादवेन्द्रो व्रजमण्डलमण्डनः कंसभ्रादु प्रभन्दासितीर्थयात्राकरप्रभुः दुर्योधनगुरुसाक्षात् पाहि पाहि जगत्प्रभो जय जयाच्युतदेवपरात्परस्वयमनन्ददिगन्धगदश्रुत सुरमुनीन्द्रफणीन्द्रवराय दे मुसलिने बलिने हलिने नमः इह पडे सदतं स्तवनम् तु यः सदु हरेः परमम् पदमाव्रजेद जगदि सर्वबलं त्वरिमर्दनम् भवति तस्य जयस्वधनम् धनम् श्रीनारद उवाच बलं परिक्रम्य शतम् प्रणम्य तैर्द्वैपायनो देवपरा शरात्मजः विशालबुद्धिर्मुनि सरस्वती सत्यवदी सुतोययौ इति श्रीगर्गसंहितायां गोलोकखण्डे नारदबहुलाश्वसंवादे बलभद्रजन्मवर्णनम् नाम दशमोऽध्यायः ओम्